जनते जवम् वैवस्वतम् मनो जगामदुरकम् तत्रावर्तयामसि हक्षया जीवसे चर्ते दिवम् यत् पृथिवीम् मनो जगामदुरकम् तत् आवर्तयामसि हक्षया य जीवसे जनते भूमिम् तत्तावर्तयामसि अक्षयाय जीवसे जनत्ते चतस्रः प्रतिशो मनो जगामदूरकम् तत्तावर्तयामसि अक्षयाय जीवसे जगत्ते समुद्रमन्नवम् मनो जगामदूरकम् तत्तावर्तयामसि हक्षयाय जीवसे तो मनो जगामदूरकम् रजावर्तयामसि हक्षयाय जीवसे यत्ते अपोजदोषाधीयम् मनो जगामदूरकम् रत्तावर्तयामसि हक्षयाय जीवसे रते सूर्यम् यधुषसं मनो जगामदूरकम् अरत्तावर्तयामसिंहक्षयाय जीवसे यत्ते पर्वताम् बृहतो मनो जगामदूरकम् रतावर्तयामसिंहक्षयाय जीवसे यत्ते विश्वामिलम् जगन्मनो जगामदूरकम् अरतावर्तयामसिंहक्षयाय जीवसे यत्ते परा परावतो जगा मनो जगामदूरकम् कर्ता वर्तयामसि हक्षयाय जीवसे यत्ते भूतम् च भव्यम् च मनो जगामदूरकम् कर्ता वर्तयामसिहक्षयाय जीवसे तदाजाजप्रतरन्नवीयस्था नेव क्रतोमदा रथस्य अथच्चवानमुत्र वीत्यर्थम् परातनम् सुनिजरुजिहीताम् सामन्वराजे हि शिवन् तानो सुपुरुधस्रवांसि नो विश्वानिजयि रामत्त्वपरातनम् सुनिरुजिहिताम् ीश्वा अर्यः पुंसे भवे मजोर्नभूमिम् यो नाद्राज तानो विश्वानिरयाजिगेतपरातरम् सुन्दृर्जिगीता मोष सोममृत्यवे परा दात्वस्ये मनसूयमुच्चलम् तम् युजर्हिरो चरिमासूनो अस्तु परातरम् सुनिर्वेदृहीता असूनीते मनोः अस्मासु धारय जीवात वेयस्प्रतीरा न आजूह आनन्दिनः सूर्यस्य संलिति घृते न त्वम् तन्वम् वर्धयस्य असूनीते पुनरस्मासु रक्षः पुनः प्राणविहनो धेहि भोगम् मुच्चरम् तमनो मते मृणया नः स्वस्ति पुनरन्नामसोम् पृथिवी ददातु पुनर्जो देवी पुनरन्तरिक्षम् पुरन्नः सोमस्तन्वम् ददातु पुनःपूडापत्या आय्यास्वस्ति संरोदी सुबन्धवे जीस मातरा मभयद्रपोद्यौ पृथिवी क्षमारपोमोषु ते किञ्च नामामत् अवद्वगे अवद्रिकादिवश्चरन्ति भेषजा क्षमाचारिष्येणकम्भरतामभयद्रपोजौ पृथिवी क्षमारपोमोषु चे किञ्च नामामत् समिन्द्रेर जगामा ड्वाहम् च आवाहदुषीनराण्यानाः भरतामपयद्रपोर्जो प्रेथिविक्षमालपोमोढते किञ्च नामावचाजनम् माहीनानामुपस्तुतम् अखगन्नभिभ्रातो नमाह असमादिम् नितोषम् शेषम् नीयजिनम् रथम् भजे रथस्य सत्पादिम् योजनान्महिषा एवाधिस्थौपवीरवान् मुधापवीरवान् युधा यस्ये क्षागुरपवृतेरेवान्वधार्येधते दिवीव पञ्चादृष्टजाः इन्द्रक्षत्रासामादिषु रथः प्रोष्टेषु धारय दिवीव सूर्यम् दृशे अगस्त्यश्च न त्यजसप्ते शिरोहीता वनीन्यक्रमेरभिविश्वान् राजन्न राधसाः अजम् मादायम् पितायम् जीवादुरागमत् इदम् तव प्रसर्पणं सुबन् यथा जा युगम्बरत्र जानह्यम् जिधरुणायकम् धारते मनो जीवात वेन नृत्यवेधोऽरिष्टतातये पृथिवी मही दाधारे मान् बृहस्पतीन् हेवादाधारते मनो जीवात वेन नृत्यवेधो अरिष्टतातये यमादहम् वै वस्वतात् जीवात वेन वृत्यवेधो अरिष्टदातये ज्ञा अग्भातो वाजिन्यसूर्याः नीचीनावज्ञादूहेण्यग्भवतु ते रपाः अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेरेषजोऽयम् शिवाभीमरुदनः इदमिच्छा रौद्रम् गो तव चा ब्रह्मक्रत्वा सामन्त्रराजौ राणायदस्य पितरामङ्गनेष्ठाः परिषद्भक्ते अहङ्गा सप्तहोद्रे सेदायदभ्यायवन्वञ्च नः सूदैरमि तपेदिम् ूर्वया नो भूर्तव दस्तमाक्षो दो नरेतजितभूदि अनो न येषु भव येषु जैत्वम् विभः सच्चामनुतो ग्रव आयश्वर्याभिस्तु विनृम्नो कृष्णायद्वोश्वरिणेषु चैतद्दिवो नपाताश्विनाहुवेवा गीतम् मे यज्ञमागतम् मे अन्नम् भवन्वाम् सारेषमस्पृदध्रु प्रचेष्टयस्य वीरकर्ममिष्णदनुष्ठितम् नु म्यजो अपोहत् पुनस्तदा वृहति यत्कनाया दुहिदुरा अमोभृतमनर्वा ध्यायत्तमभवदपि के कामम् गृह्वारे वितरीयुमत्याेतो जगदुर्यम् दासानो निषिद्धम् सुकृतस्य योनौ यायत्स्वान्तरमधिष्ठेतः सञ्जग्मानो निषिञ्जत् स्वाध्यो जनयन् ब्रह्म देवा वा स्तोष्मति मृतपाम् निरदक्षम् सरीमृजानफेन वस्य राजौ स्मदापैरपदभ्रजेताः शरस्त्वतानुमे वृधन्यो मक्षो न वह्पधिरग्निम् नग्नमुपासीतदूधाः सनीते ध्वम्सनीतो समाजम् स धत्ता ज्ञे सहसायुत मक्षो गणायाः सख्यम् न वग्वासम्वदम् तर्तयुक्तिमग्मन् जिबर्घसौजवुपगोपमागोरदक्षिणा सोऽच्यूतादु दुःखम् गनाया मक्षो गणायाः सख्यम् नवीयो रातमित्तोरन्युजियते समर्दुगाजापयामुश्रियायाः अश्वायश्चावियूता बुधम् ते विव्रवीति वक्त्रधीरराणः वसोर्वसत्त्वाकारवो नेहाविश्वम् विवेष्टे द्रवी नमो प्रक्षो अधजिनस्य परिषद्वाहानो अग्मन्पुरोषधम् तो नाशदम् वित्सन् त्रिजस्य गुहायते भर्गो गणामोदयस्य देवा अग्न्यर्हना मोदजातवेदाश्रुधीनो होतर्हृत स्वहोताधृग उदत्या मे रौद्रावर्चिमन्ताना सत्याविन्द्रगोत्रजे चध्यै मनुष्वद्भक्तपरिहिषेतराजसा भिक्षुयजु अयम् स्तुरो राजा वन्ति मेधापश्च विप्रस्तर विश्वसेतुः रक्षीवम् तम् रेजयत्सो अग्निम् नेमिम् न चक्रमर्वतो रद्रो सद्दिबन्धुर्वैतरणो जष्टासमध्वम् धेनुमस्वम् दुभध्यैः सञ्न्नित्रावरूनाविन्दमुखैर्ज्येष्ठेभिरर्जमनम् वरूथैः तद्बन्धुः सूर्यद्विरेधियम् धानाभाने तिष्ठोरपतिप्रवेणन् का नो नाभिः परमास्य वा गाहम् तत्पश्चाखचिदष्टिदास इयम् मेनाभिधिहमे सदस्त मिमे देवा अयमस्मि सर्वाः द्विजाः प्रथमजातस्येनम् धेनुरानुभज्यायमाना मन्त्रो अरतिर्विभावास्य दिग्विभक्तनिर्वेरायच्छे निर्णसि शब्दम् वक्षोऽस्थिरम्भे वृधम् सूतमाता अधारामादि गणयानुस्वान्तस्य कस्य दिग्मरे म् सद्रविनो न स्वर्गस्य वावृधे सूनृताभिः अध त्वमिन्द्रविद्या अस्मा महोराजेरेवस्ते हरिवो अभिष्टौ अधयद्राजानागविष्टौ सरः सरण्यः कारवेदरण्यः ेष्ठाम् बभूवरा चमक्षेना पुष्टौ प्रधारे भन्देतधूनोरस्य धूनिरस्व विप्रश्चाधिस्रवादस्य सातौ यिवो जली सख्याया स्मे श्रद्धा यस्तो मम् जुषे नमः स्वान् विश्वत्रयस्मिन्नागिरस्तपीतेः पूर्वेव रादुर्दासः सुदृतायै सर्वे नानो अभ्युर्देव मालिते शुभम् धर्म सा सूक्तैः अर्धदुःखैर्वचोभिरायनूनम् व्यध्वैः विपयसपुश्रियाः भूषणो अभूयजत्रा भूतदेवासभूतये सजोषाः देवाजाङ्गणयताभियम् देवा तो ये स्थानी चेतारो अमूराः अपि वातजमनाः ॐ हरिः ओ दक्षीणजा समग्राजिन्द्रस्य शख्यमामृतत्वमानसा तेभ्यो भद्रमङ्गिरसोमो हस्त्वप्रतिगृभ्रीतमा नवम् सुमेधसा युगमुदागनम् वितरोमजन्मश्रिदेनाविन्दन्वरिवत्सरे वरम् ीर्भाज त्वमङ्गिरसो वो अस्त्वप्रतिगृघ्ेतवानवंसो मेधसः रजेरसूर्यमारोऽहयम् दिव्यप्रासयम् पृथिवी मातरम्वि सुप्रजात्वमङ्गिरसो वो अस्त्वप्रतिगृघ्नेतवानवंसो मेधसः अयम् नाभा वदति भल्गो गृहे देवपुत्रा ऋषयस्तच्छ्री नूतन सुब्रह्मण्यमङ्गिरसो भो अस्त्वप्रतीगृभीरमानवम् सुमेधसः विरोबाधयदृढ यस्तयुद्धम् भीरमे बतः ए अङ्गिरजः सो नभस्ते अग्ने परिजगिरे े अग्ने परि जग्निरे विरूपासो दिवः परि नवद्गो नु दशग् गो अङ्गिरस्तमस्त देवेषु मंभते इन्द्रेण युजानिः श्रेजन्तमाघतो व्रजम् गोमन्दमस्विवम् सहस्रम् मे ददातो अष्टकन्या अश्रवो देवेष्वक्रता यताभयम् मनस्तोत्मेऽवरोहतु यः सहस्रम् सता स्वम् सद्यो दानायमम् भाते न तमस्रोऽधिकश्चन दिवजीभसान् आरभम् सावर्ण्यस्य दक्षिणाभिसिन्धूरिव पप्रथे भूतदासापनिविषे स्मद्दिष्टी गोपरीवसा यदुस्सर्वश्च भामहे सहस्रदाग्रा मणीर्मालिषण्मसूर्ये नास्य यत मानयितु दक्षिणा साम्येदेवा प्रतिरन्त्वा यस्मिन्नश्रान्तास नामवाजम् परापतो यदि गन्ताप्यवगमनप्रीता सोजनीमाभिभस्वतः निजातेर्येन हुष्यस्य बर्हिषि देवा आस ते ते अधिब्रुवन्तु नः विश्वाहि वो लभस्याजिवम् जानामाणि देवाभूतजज्ञियानिवह येष्ठ जाता अधीते रथ्यस्ते पृथिव्यास्ते वा यिह सृताहम् भ्यो माता मधुमत्पिन्बते वीयूषम् जौरदीतिलद्रीबर्वा मुग्धसुष्मान्मृगफलान् स्वप्नसस्ताङ्कादित्यासो अनि विषन्तो अर्हणा बृहद्देवासो अमृतत्वमानसोः ीराधा हीमाया अनागसो दिवो बह्माणम् वसते स्वस्ते सम्राजो ये सुवृथो यज्ञमायजुरपरिह्वे द्विक्षणम् ताम् कावीवासनमसाधुभ्यर्महो आदित्या अदितिम् स्वस्तये को हस्तोमम् राधदियम् जुजोषध देवासो देवासोमनुषो जतिष्ठन को वोध्वरम् तु विजातारम् करद्यो नः पर्षदत्यम् हस्वस्तये एभ्यो होत्राम् रथमा ये देवनः समिद्ध्या सा सप्तहोत्रिभिः दित्या अभयम् धर्म यच्छत सुगानः कर्त सु यी श्रीरे भुवनसो विश्वस्य स्थातुर्जगदश्च मन्तावः तेनः कृता दगृतादेन दस्पर्यद्यादेवादपिवृताश्वस्तये हरेष्विन्द्रम् सुभवम् भवामहे भौमुचम् सुकृतम् दैव्यञ्जनम् अग्निम् मित्रम् वरुणम् सातजे भगम् जावा पृथिवीमरुतः स्वस्तजे सुप्रामाणम् पृथिवीम् जावानेहसम् सुसर्माणमधितिम् सुप्रणीतिम् देवीम् नावम् सरिद्रामनाय समस्रामीमारुहेमास्वस्ते यदत्राधीमोचतो दुरेलायाभिहृताः सत्यया वो देवहूच्चाहुवेमषण्तो दे भाभासे दे स्वस्पदे अपामी वाम भविश्वामनाहुतिमपादिम् दुर्विलत्रामघायतः आरे अस्मद्यूयोतनोरुनः कर्म यच्छता स्वस्तरे अरिष्टः समर्थो विश्व एधते प्रजाभिर्जायते धर्मा नः स्परि नित्याभिरधि विश्वाः विदुदिता स्वस्तजे निन्दे बाधो बधवाज सातौ जम्भूर साता मरुतो हिते धने आर्यावाण्रथा इन्द्रसा न शिवरिष्यम् प्रमारुहे मा स्वस्तजे स्वस्ति नः पथ्याः सुधु स्वजा आसु वृजनेश्वस्ति नः पुत्रगृहे स्वस्ति राजे मारुतो दधातन स्वस्ति रुद्धि प्रपथे श्रेष्ठा रेण स्वया भावेति सानोः अमासो अरणे निपा दुःस्वामे देवगोपा प्नुते सुरविवृध त्व विश्व आदित्यादिते मनीषी ईशानासो नो अमत्येनास्तानो अधिोगेन कथादेवानाम् कथमश्रिलामनिसुमन्तु न वा शृण्वताम् मामहे कोम्रेलादिकथमो नो मनस्कर कथमभूति अभ्यावाभत्परि ृत्सुधीतजो न मर्जिता विद्यते अन्यदेभ्यो देवेषु मे अधिकामा अयम् सदाभाशंसम् पूषणमगो अयमग्निम् देवेऽध्यामभ्यर्थसे या ो जामासा चन्द्रमासा जमन्तुमस्याविस्तु वीरपान्धरा गिरा बृहस्पतिरुपा वृथते तु भक्तिभिः अजरे कात् सुभवे भृक्वाभिरहि शृणोतु बुद्ध्यो ओ हरि रक्षश्रवादिके जन्मान्यम् हृते राजानामित्रावधुना विभाषसि अतो पुरुषो अर्जमा सप्तहोषुरूपेषु जन्मासु तेनो अर्वम् दोहवनश्रुतोऽहवम् विश्वे शृण्वन्तु सहस्रता मेधसा कापि पद्मना महोजय धनम् समिषे जिरे प्रभो वाजुम् रजयुजम्पुरम् देम् सोमैः क्रध्वम्सख्याय भूषणम् ते हि देवस्य सविव स वीवरिक्रसंसरम् जय सवितस्व ग्निभूतये कृते कृष्णम् सरस्ताद्रम् रुद्रेणोरुम् भवामहे सरस्वती शरजसिन्धोरो महो महीरवसायम् सुवक्षराणि देवी मधुमन्नो देवीलावो मातरः सूतविष्णुवो धृतवत्मयो मधूमन्वोक्षर उतमाताभिहद्दिवासृणो नष्टा देवेभ्यर्जनेभिक्षितावदाः भुक्षा वा जो रथश्वर्भयो रण्वस्वश्वनस्य मातुनः ृष्टो भाद्राणा याम् मेधिजम् कुवे अङ्गात्यस्य वर्गो ध नाभाजत्र प्रथमम् धर्मदा महे तत्रिवी मातरा मही देवी देवा जन्मनायज्ञे इभे बीभृतः त्राविष्टामस्नो दिवाद्यम् मृगस्पदीयसी त्र मधुषदुच्छते बृहदपि भजन्तमतिभर्मः एव कविस्तु भेरवाङ्ा द्रविनश्च रुद्रविणश्च कालः मुक्ते पतिभिश्च विप्रोऽपि भजद्गजो पुनरे आदित्यादिते मनीषी सोनरो अमर्त्येनास्ताः विषनोः दिव्यो गजेन अग्निरिन्द्रवरो नो मित्रो हरिजमा वायुः कूढा सरस्वती रजोषः आदित्या विश्वर्मरुदस्त्वर् बृहत्सोमा रुद्रोदितिर्ब्रह्म बृहस्पतिः इन्द्राग्निवृत्रहत्ये षुदत्व अन्तरिक्षम् मह्याभ प्ररोदधा सोमोऽरजन् एनाम् हिमन्नाम हतामनम् सोमाङ्गियम् मृतज्ञार्था ये अप्सवमन्नवम् वित्रराधस्ते नो रासन्ताम् महजे सुमित्याः स्वर्णरन्तरिक्षानिरोदनाद्या बा भूमिः पृथिवीम् त्वम् भुरोच वृक्षायैव महजम् तस्व भातयो देवास्तमेव इन्द्राय शिक्षमरोय राजुरे राम्राजामनधानप्रजुच्छतः यजोर्वाधर्मोचते बृहज्जयोसीनाथसीवृतौ गौर्वम् पर्येति निष्कृतम् वयो दुहा नामधीगरभारताः सा ब्रब्रुवारावरो नाय दादुरे देवेभ्यो दासध्वविषा विवस्वते विवक्षसो अग्निजग्पाले तावृधातस्य योनिम् आसते भिद्या अपाचक्रो च सा यज्ञम् जनित्युः परिक्षिता पितरापोर्भयावरीतस्य यो नाशमो गा वा नायसंव्रते धृतमत्मजो महिषाय पिन्वतः ्यावाता वृषभापूजीषिणेन्द्रवायो वरो न मित्रो अर्यमा देवाम् मादिङ्गवापहेदे पार्थिवासो दिव्यासो अत्सुजे वर्षारम् वायुमृभवोजवो ह स्वस्तये बृहस्पतिम् रक्तम् धो मेघतामिन्द्रियम् धनता भूजीमहे ब्रह्म रामस्वम् जनयन्तोढाधीर्वनस्पतीम् पृथिवीम् अपः सूर्यम् त्रिविरोहयन्तः सुदानभार्या मदामि सृजन्तो अधिक्षमि भुज्यमङ्गदपि निरस्विराश्यामम् पुत्रम् मध्यिमध्या जिन्मतम् अमद्यणा वा सृजतः आवीरवीतम् यदुरेगापादयो दिवो धर्तासिन्धुरावस्तमुद्विः विश्वे देवासृणन्वचाम् श्रिमे सरस्वती सरधिभिः पुरन्धा श्वे देवाः सगधिभिः पुरन्ध्यामनोर्यजत्रा अमृता अभिगाचर्विदस्वा ब्रह्म सूक्तम् जुवेदन देवान्वसिष्ठो अमृतान् भवन्ते ये विश्वाभुवनाभिप्रतस्तु यमद्य यूयम् वा कस्वस्तिभिस्तदानः देवान्भूमे भृगच्छ्रपथस्वस्तयेजो धिष्ठतो अध्वरः सप्रचेदः एवावृधप्रलभनम् विश्ववेद इन्द्रज्येक्षासो अमृता वृदा वृथाः इन्द्रप्रसूदावरो न प्रसे सूर्यस्य ज्योतिषो भागमानसो मरुद्गाने विजने मन्माधीमहिमाघो ने यज्ञम् च नयन्तसूरयाः इन्द्रावसुभिः परीपातु नो गयामादित्यैर्नादिशर्मा यच्छतु रुद्रो रुद्रेभिर्देवोरे रजातिरस्तोष्टाभिः सुविताय जिन्मतु अतिदर्द्यावापृथिवीरुम् महदिन्द्राविष्णो मरुदस्व बृहत् देवादित्या वामहेमसून् रुद्राम् स विकारम् सुहंसरसम् सरस्वान् देविर्वरोमावायुरश्चिनामृताः विश्ववेदः सर्वा नोजम् सन् विभरोतमम् घासः मृषाः यज्ञो वृढाणः सन्तु यज्ञजावृषालो देवावृषानोह विष्कृताः ृष नाद्यावापृथिवीरतावरीवृषाः पजन्यो मृष नो वृषस्तुभाः अग्निोमावृष नाभाज सातये पुरप्रशस्तावृष नावुपब्रुवे यावीधिरे वृष नो देव यजजाता नः सर्वत्रिपरोः संविलम् सतः ्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवाध्वरानामभिसृजाः अर्निहोतार ददापो अदृगोपोऽसृजन्दनो भृत्र दूर्ये या वा पृथिवीजनयम् अभिंव्रतापवोषधीर्वनिना नियज्ञा अन्तरिक्षम् स्वा अरापूतजेवसम् देवासस्तङ्गी एमानुजो नर्तारो दिवरिभवः सुहस्तावातापर्जन्यामायुणस्य रन्यरोः आपमोढधे प्रतीरन्तु न गिरोभरो रार्वादिनो हयन्तु मेघवम् समुद्रस्यन्धूरयो अन्तरिक्षमजेकपात्तनयत्रवः अयद्बुद्ध्यशृणमध्वजाम् श्रिमे विश्वे देवासभुतधूरयो मम श्याम कोमनवो देववीतये प्राञ्चम् नो यज्ञम् प्रणायतसाधुजा आरिद्यारुद्रावसवसुरा नवशिवाम् ब्रह्म दस्यमानानि जिन्वत दैव्याहोता राक्षसमा पुरोहि दृतस्य मन्धावन् वेति साधुजा क्षेत्रस्य पतिम् प्रतिवेशमीमहे विश्वान् देवामृताप्रयुच्छतः असृष्ठा सप्तवाचीलानाजिवत्स्वस्तीवज्ञातज्का मे स्मे वासो वधूनुतापसु देवान्वशिष्टा अमृतान्वन्दे विश्वाभुवनाभिप्रतस्तुः ेनो रासम् तामरुगायमध्ययूजम् पात स्वस्तिभिश्व प्रजाताम् हरिमा विन्दते तुरीयम् सृजनयद्विश्वजन्यास्य मुख्यमिन्द्रायशंसन् ऋतम्पुत्रासो असूरस्य वीराः विम् पदमङ्गीरसोदधाना यज्ञस्य धावत् हंसैरीवसीभिर्भावयत् भ्याम् पर एक यागागुहाधिष्ठम् तीरने तस्य सेतो बृहस्पतिस्तव सि ज्योतिरिच्छन्मुदस्रा कर्विस्रावाह इभि ज्ञापुरम् दयधेव वाचीम् निस्त्रीणि साकमुदैर न्द्रोफलम् रक्षिता रञ्जुहानाम् करेणे भवितरवेणेलासिरभिच्छमारोदय त्वणिमागामुष्णा सयीम् धर्केभिः सखिभिः सृजद्भिर्गोदाय संविराशैर दत्तः ब्रह्म नस्पतिर्वृढभिर्वराहैर्धर्म स्वेदेभिर्द्रवीरम् जानट ते दत्ते नमना सा गोपाधिङ्गायी यानायुगणयन्द जीभिः गृहस्वधर्मितो आपद्यपेभिरुद श्रियासृजनस्य युद्धीः तम् वर्धयन्तोपतिभिः शिवाभिः सिंहमीपनातम् सधस्ते विगहदतम् सूरसा तौ भरे भरे अनुपदे मयिनौ यदा वाजवदोपवाद्यापरक्षदुत्तराणि मृगस्पतिम् मृढानम् वर्धयन् दोरानादन्तो विभ्रतो ज्योतिराजा सत्यामादिकम् कृणुतावयोधैः क्षीरम् युज्यवधस्वेभिरेवैः पश्चामृधो अवभवन्तु विश्वास्तद्रोदशी शृणुतम् विश्वमिन्वे नाम हृतो अन्नवस्य विमूर्धानामभिनदद्भुदस्य अहम् न हिमदीराः सप्त सिन्धोन् देवैर्या वापृथिवीप्रावः उदानवयो रक्षमाणावावदतो अभ्यसेवघोढाः यदिभ्रजो नोर्मयो वदन्तो बृहस्पतिमभ्या अर्गानावन् सङ्गोभिराङ्गिरसोऽनक्षमाणो भग जिवेदर्यमनम् निनाय जने मित्रो न दम्पति अनग्स्पदे वाजजासूङी वाजौ साध्वर्यातिथिनीर्षिरास्पार्हा सवन्नाः अनभज्ररूपाः बृहस्पतिः पर्वतेभ्यो पितूर्या निर्गावूपे एवमिव स्थिविभ्यः आवृषायम् मधून ऋतस्य जोनीमक्षिपम् नर्तवृत्कामीपद्योः बृहस्पतिरुद्धरणस्मा लोगा भूम्या बुध्ने भवित्वम् विभेद अपद्यो दीरातमोः अन्तरिक्षा रुध्नस्यीपालमभवाद आचत् नृहस्पतिरनमृस्याभ्रमे भवाद आचग्रागाः ीज रोजशम्भेन्दृहस्तपोभिरङ्गापरिविष्टमाददावन्निधीन्द्रगुणो दुःश्रियानाम् दृहस्तम् नाम स्वरीराम् सदा ने गुहाजत् आण्डेव भित्त्वा स गुणस्य गर्भमु दुःश्रियाः पर्वतस्य आत्मनाजत् अस्माभिन्मध्यन्नदनि क्षियन्तम् नेतभारजपदन्न वृक्षात् बृहस्वतिर्भिरवेणाधिकृत्य सो नामाविन्दस्य स्वासो अग्निन्दो अर्पेणे तमांसि बृहस्त्वदर्गो बुटो बलस्य निर्मज्जानन्नपर्व नोजभार किमेव पन्नाभूषितापनानि नृहस्पतिना कृपयद्बलोगाः अनाटकृत्य मा पुनश्च कारयात्सूर्यामासाः वितस्यामन्नकृसानेभिरस्त्वम् नक्षत्रेभिः पितरोद्यामापिंसन् तमो अधुर्जोतिरहन् बृहस्पतिर्भिरद्रिम् विदग्गाः इदमकर्म नमोहाभ्रियायः पूर्विरन्वानो नीति हि गोभिस्तोै स वीरेभ्यन्नावयोत् भद्राग्नेर्वभ्रस्वश्च सन्दृशो वामी प्रणेत सुरनामुपेतजः यदीम् सुनित्रापि सोऽ इन्धते घृतेनाहूतो जलदेत विद्युदते धृतमग्नेर्वध्यस्य वर्धनम् धृतमन्नम् धृतम् वस्य मेधानम् घृतेनाहूत उर्विजाविपप्रथे सूर्य इव रोचते सत्भिराः श्रुतिः यत्ते मनुर्यजनीगम् सु मित्रस्य मेधे अग्नेतदिदम् न वीर्यः स देवच्चोजस गिरो जस्वसवाजम् गर्डिर इव श्रवोधाः चन्त्वा पूर्वपीडितो वध्यस्व समेधे अग्ने स इदम् जूढस्व स नस्ति पालभवात नोपादात्रम् रक्षस्त्व यदिदम् ते अस्मे भवाद्युम्नेवाद्योद गोपामात्रार्जनानाम् पर्वत्या आवसो निलासा वृत्ताण्यार्यायेथ सूरय दृष्णश्च वा नो जनानान्तमग्ने वृतनायो ग्रविष्याः येर्घदम् दर्भृदक्षायमग्निः सहस्रस्तरे सदने दर्भा युमान्युमाचर्मृजमानस्तु मित्रेषु जीदयो दे भजत्सु एस्तु दुःखा जातवेदो दस्तदेव स मनस बद्धुकर्दक्षिणामध्यिरग्नेषु मित्रेभिरिज्यते दे भयद्भिः एवाश्चित्ते अमृता जातवेदो महिमानम् वाद्यस्व प्रवोचन् संवृच्छम् मानोषीर्विधायम् तण्ड्रभिरजयस्ताव्रीदेभिः इदेव पुत्रमाभितरुपश्चेत्त्वामग्ने वध्यस्वस्सपर्यन् विषाणो अस्वमिधम् जिष्ठोदपूर्वाङ्गमनोश्चित् शश्वदग्निर्वध्यश्व स रोन्नभिर्जिगाय सुतसो भवद्भिः समानम् वितर भारो वग्रासम् तमभिनदृढश्चेत्निर्वध्यश्वस्योपवाद्याः सोपयामि मृत वापियामि अभितिष्टो वाध्यस्वा ओ